गायत्री अथ गायत्रीसहस्रनामावली देवीभागवतपुराणे द्वादशस्कन्दे षष्टोऽध्याये सहस्रनामावली ॐ अचिन्त्यलक्षणाय नमः ॐ अव्यक्तायै नमः ॐ अर्थमातृमहेश्वर्यै नमः ॐ अमृतार्णवमध्यस्थायै नमः ॐ अजिताय नमः ॐ अपराजिताय नमः ॐ अणिमादिगुणाधराय नमः ॐ अर्कमण्डलसंस्थिताय नमः ॐ अजराय नमः ॐ अजाय नमः ॐ अपराय नमः ॐ अधर्माय नमः ॐ अक्षसूत्रधराय नमः ॐ अधराय नमः ॐ अकारादिक्षकारान्तायै नमः ॐ अरिषद्वर्गभेदिन्यै नमः ॐ अञ्जनाद्रिप्रतिकाशायै नमः ॐ अञ्जनाद्रिनिवासिन्यै नमः ॐ अदित्यै नमः ॐ अजपायै नमः ॐ अविद्यायै नमः ॐ अरविन्दनिभेक्षणाय नमः ॐ अन्तर्बहिष्ठितायै नमः ॐ अविद्याध्वंसिन्यै नमः ॐ अन्तरात्मिकाय नमः ॐ अजायै नमः ॐ अयमुखवासाय नमः ॐ अरविन्दनिभाननायै नमः ॐ अर्धमात्रायै व्यञ्जनवर्णात्मिकाय नमः ॐ अर्थज्ञ दानज्ञाय नमः ॐ अरिमण्डलमर्दिन्यै नमः ॐ असुराज्ञ्यै नमः ॐ अमावास्याय नमः ॐ अलाक्षिज्ञ्यै नमः ॐ अन्त्यजार्चिताय नमः ॐ आदिलक्ष्म्यै नमः ॐ आदिशक्त्यै नमः ॐ आकृत्यै नमः ॐ आयताननाय नमः ॐ आदित्यपदविचारायै नमः ॐ आदित्यपरिसेवितायै नमः ॐ आचार्यायै नमः ॐ आवर्तनायै नमः ॐ आचारायै नमः ॐ आदिमूर्तिनिवासिन्यै नमः ॐ आग्नेयै नमः ॐ आमर्यै नमः ॐ आद्याय नमः ॐ आराध्याय नमः स्थितायै नमः ॐ आधारनिलयाय नमः ॐ आधाराय नमः ॐ आकाशान्तनिवासन्यै नमः ॐ आद्याक्षरसमयुक्ताय नमः ॐ आराकाकाशरूपिण्यै नमः ॐ आदित्यमण्डलगतायै नमः ॐ आध्वान्तनाशिन्यै नमः ॐ इन्दिराय नमः ॐ इष्टदाय नमः ॐ इष्टाय नमः ॐ इन्दिवरनिवेक्षणाय नमः ॐ इरावत्यै नमः ॐ इन्द्रपदाय नमः ॐ इन्द्राै नमः ॐ इन्दुरूपिण्यै नमः ॐ इक्षुकोदण्डसंयुक्ताय नमः ॐ इषुसन्धानकारिण्यै नमः ॐ इन्द्रनीलसमाकाराय नमः ॐ इडापिङ्गलरूपिण्यै नमः ॐ इन्द्राक्षै नमः ॐश्वर्यै नमः ॐ इहात्रयविवर्जितायै नमः ॐ उमायै नमः ॐ उषायै नमः ॐ उडुनिभायै नमः ॐ उर्वारुकफलाननाय नमः ॐ उडुप्रभायै नमः ॐ उडुमत्यै नमः ॐ उडुपायै नमः ॐ उडुमध्जिगाय नमः ॐर्धाय नमः ॐकेश्यै नमः ॐ ऊर्धाधोगतिभेदिन्यै नमः ॐ ऊर्ध्वबाहुप्रियायै नमः ॐ ऊर्मिला माला वाग्ग्रन्थदायिन्यै नमः ॐताय नमः ॐष्यै नमः ॐतुमत्यै नमः ॐषिदेवनाम सकृतायै नमः ॐग्वेदाय नमः ॐहर्त्यै नमः ॐषिमण्डलचारिण्यै नमः ॐय नमः ॐमार्गस्थायै नमः ॐ ऋजुधर्मायै नमः ॐजुप्रदायै नमः ऋग्वेदनिलयायै नमः ॐज्वै नमः ॐ लुप्तधर्मप्रवर्तिन्यै नमः ॐ लुतारिवरसम्भूतायै नमः